नमो नमः नमस्कारः नमो नमः नमो नमः स्वागतं सर्वेषाम् आरम्भं कुर्मः वीणा भगिनी प्रार्थनां वदति वा अस्तु भगिनि वदामि <coughs> हरे श्रीगुरुभ्यो नमः हरिः ओम् वक्रतुण्डमहाकाया कोटिसूर्यसमप्रभा निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा <coughs> शान्ताकारम् भुजवशयनम् पद्मनाभम् सुरेशं विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिहृद्यानगम्यम् वन्दे विष्णु भवयहरम् सर्वलोकैकनाथम् हरि ओम् श्रीकृष्णाय नमः हरि ओम् भगिनी हरि ओम् धन्यवादाः गत गतसप्ताहे कथायाः तत्र कथाम् वयं न समापितवन्तः कथां प्रति गच्छामः प्रथमवारम् अनन्तरं हा अस्तु अनन्तरम् अग्रिमे पाठे अग्रिमह पाठः अस्ति तत् चतुर्विंशतितमं संशयात्मा विनश्यति इति अस्ति पश्यामः प्रथमं तत् कथायाः समापवान् भवेत् हा दृश्यते वा कृषिकः कोकिलः श इति भगिनी दृश्यते एकवारं तस्य पठनं वयं सर्वे स्मर्तुं शक्नुमः परन्तु एकवारं तस्य शीघ्रतया पठनं भारत भरतमहोदय भवान् पठति वा आं भगिनि कृषिकः कोकिलश्च कश्चन लघुग्रामः तत्र कश्चन कृषिकः निवसति स्म सूर्योदय सुर्य, सूर्योदयतः सूर्यास्तं पर्यावत् सः क्षेत्रे विविधानि कार्याणि करोति ततः सायं कुटीरं प्राप्य किंचित, किंचित, किंचित, किंचित, किंचित, किंचित, किंचित विश्रान्तिं स्वीकरोति स्म अग्रिमे अपि श्रोतुं शक्नुयां तावत्पर्यन्तं पठतु अनन्तरम् एकमेकं एकम वाक्यं स्वीकृत अहं मन्ये तत् श्रोतुं शक्नुयामिति तावत्पर्यन्तं वयं पठितवन्त एकवारं भवान् पठतु तावत्पर्यन्तम् तस्य कुटीरस्य समीपे एक कश्चन महा महान् आम्रवृक्षः आसीत् तत्र बहुभ्यः प्रदेशेभ्यः आगताः पक्षिणः वसन्ति तत्र तेषां सङ्गीतगोष्ठी प्रचल प्रचलति स्म ते सर्वे स्वस्य स्वस्य गानसमर्थं सामर्थ सामर्थ्यं न्ति स्म तत्र <coughs> एकदा कृषिकः कुटीरे शयितः आसीत् तदा पक्षिणां सङ्गीतगोष्ठी आरब्धा एकैकः अपि पक्षी, <coughs> पक्षी कुजनेन स्वगानप्रतिभां प्रादर्शयत् तेषु कोकिलः कश्चित् मधुरतया कूजति स्म तत् श्रुतवान् कृषिकः तस्य तणिना आकृष्टः सन् अचिन्तयत् अचि, अचिन्तयत् यदि एतादृश एतादृशः कोकिलः मम आकाशे सकाशे स्यात् तर्हि प्रतिदिनं तस्य कोठामृतध्वनिं कण्ठामृतकण्ठामृतध्वनिं श्रोतुं श्रोतुं अत्र एतावत्पर्यन्तं किमस्ति कथा कथायाः आश्रयः तत्र एकः कृषिकः सः कृषिकार्यं करोति स्वस्य कार्ये सः मग्नाः मग्नः आसीत् इति परन्तु तत्र तस्य चिन्तनं कथं तत् आम्रवृक्षः अस्ति आम्रवृक्षे पक्षिणः निवसन्ति तदा तत, तत्र गानं तेषां गीतगानं पक्षाणां तत्र गानं पक्षिणः गानं श्रुत्वा सः तस्य मनसि सन्तोषः अधुना तत्र कोकिलः सर्वेषु तत्र कोकिलः कोकिलः एकः आसीत् तत् कोकिलस्य ध्वनिः अतीव मधुरः तत् सः ध्वनिना आकृष्टः अधुना तस्य चिन्तनं किं सः चिन्तयति मम समीपे मम सकाशे इत्युक्ते मम गृहे वा मम समीपे यदा भवेत् चेत् प्रतिदिनम् अहं श्रोतुं शक्नोमि इति इति तस्य चिन्तनम् अधुना पश्यन्तु तत्र मुक्तभावनया पक्षे तत्र मधुरगायनं यत् प्रचलति तत् पक्षिगानं तत् सः न अनुभवति तस्य कृते किमस्ति तत्र मम समीपे कोकिलः स्यात् तदा अहम्, यदा अहम् इच्छामि तदा तस्य कण्ठामृतध्वनि इति शब्द तस्य संगीतं, तस्य ध्वनिं श्रोतुम् अहं सक्षमः भवेम इति hmm. तस्य चिन्तनम् हा hmm. अधुना अग्रे सह किं कृतवान् तत् अग्रिमे hmm. अस्ति अस्तु अधुना अम्बिकापति मोनो महोदय भवान् पठति वा ततः अपरेद्युः धन्यवादः ततः अपरेद्युः अपरेद्युः एव सह जालं प्रसार्य तं कोकिलं अगृह्णात् ततः गृह्णात् अगृह्णात् अगृह्णात् लोह लोहनिर्मिते पञ्चरे तं पक्षिणाम् संस्थाप्य सः अवदत् रे कोकिल mm. त्वया uh, इष्यमाणम् सर्वम् आहारं दास्यामि mm. गाय त्वम् किञ्चित् mm. uh, वा प्रतिदिनं uh, मन्निमित्तम् प्रतिदिनं मन्निमित्तम् इति अहं पञ्चरे स्थापित्वा कोकिलः अग्रण अग्रणा गृह्णा गृत्वा गृहीत्वा पञ्चरे स्थापित्वा कृषि वदति अहं प्रतिदिनम् आहारं ददामि मधुरं गानं गायतु अत्र पश्यन्तु लोहनिर्मिते पञ्जरे कोकिलस्य स्थापनम् अनन्तरम् इष्यमाणं सर्वम् आहारं दास्यामि इत्युक्ते तस्य बंधने कोकिलं बन्धने स्थापित्वा सः वदति सर्वम् आहारं दास्यामि तत्र गायत्वं तत्रा गायत्वं तद् गायत्वम् इत्यपि तत्र लोटलकारः अस्ति गैधातु तस्य लोटलकाररूपं गाय गाय लोट्लकार मध्यमपुरुष एकवचनं किञ्चित् प्रतिदिनं मठ् मन्निमित्तं तस्य मत् निमित्तम् इत्युक्ते मठ् मम कारणात् अहम् इच्छामि अतः गायतु गायत्वम् इति विचारः तस्य अधुना पश्यामः अग्रिमे किं भवति धन्यवादः महोदय धन्यवादः आम् वीणा भगिनी अग्रिमे पठति वा भा? हा भगिनि हा भगिनि एक एकनिमिषमेव हा शक्नुयां कोकिलः अन्तिम अन्तिमा पङ्क्ति कोकिलः महता दुःखेन कोकिलः महता अकथयत् भोः कृषिकमहाशय नैव गीयते पञ्जरे यदि त्वं यदि त्वम् एव. यदि त्वं पञ्जरी एव मां स्थापयतेः तर्हि व्यथया अहम् रुग्णो भवेयम् hmm. तेन च मम मरणमपि स्तम्भवेत् अतः मां बन्धम् कुरु कृपया इति hmm. किम् किम् अवदत् कोकिलः तस्थि <coughs> कोकिलः दुःखेन सह उक्तवान् नैव गीयते पञ्जरे मया इत्युक्ते किम् अहं पञ्जरतया गातुं न शक्नोमि इति आम् बहु सम्यक् अहं पञ्जरे न गायामि इति यदि त्वम् अग्रिमे किं वदति यदि त्वं पञ्जरे एव पञ्जरे एव स्थापयेः तर्हि यथया अहं मरणमपि प्राप्तुं शक्नोमि इति आम् अहं रुग्णः भव भवेयम् ण रुग्णः सम्भवति रुग्णः इति किं भवति रुग्णालयः चिकित्सालयः इत्युक्ते हास्पिटल् इति वैद्यालयः अस्तु भगिनि अस्तु अहं तेन च मम मरणमपि असम्भवेत् अतः मां बन्धुमुक्तं कुरु कृपया सः सः कोकिलः पृच्छति बन्धमुक्तं बन्धमुक्तं कुरु इति यास्यति इत्युक्ते पश्यन्तु बन्धने बन्धने अहं गातुं न शक्नोमि हा बन्धने स्थापित्वा यदि मम गायनं मम मधुरध्वनिम् इच्छति चेत् तत अहं कर्तुं न शक्षमः इति अहं न कर्तुं शक्नोमि कृपया बन्धात् मो मुच्छति इति इच्छामि मां बन्धां मोचय इति तद् न भवामि अहं बन, बन्धने न भवामि अहं बन्धमुक्तं भव भवितुम् इच्छामि इति तदा mm -hmm. एव मम गायनं भवान् शृणोतु इति सः वदति mm -hmm. अधुना अग्रिममपि पठतु अनन्तरं जयन्ती भगिनि अग्रिम किन्तु कृषिकः एतत् पठतु हा अस्तु भगिनि किन्तु कृषिकः एतत् न आंग, तत्र किमस्ति पश्यन्तु अङ्गी अकरोत् भूत्काल अस्ति अतः अङ्गी अकरोत् यदा वयं वदामः खलु स्पष्टीकरोति हा तत् किमस्ति तत्र एतत् प्रत्ययान्तरूपाणि तत् अङ्गीकरोति इति अङ्गीकाल अङ्गी अकरोत् इति अस्ति परन्तु अत्र कथं कथं कथं वक्तुं शक् शा, शक्नोति भगिनी अङ्ग्यकरोत् वा अङ्ग्यकरोत् इति तत् सन्धि सन्धि अस्ति खलु इकारस्य यकार अतः तत्र इय अंग्य इति दृश्यते वस्तुतः मूलरूपेण तत् अङ्गी अकरोत् इति परन्तु तत्र सन्धि भवति खलु अंगी, इकार अ इ अ द्वयोः मध्ये यण यणसन्धि भूत्वा य अतः अङ्ग्यकरोत् इति अङ्ग्यकरोत् इति सः स्वीकारम् hmm. एतस्य स्वीकारं सः न कृतवान इति भावः न स्वीकरोति एतत् अन्ते कोकिलः किञ्चित् उपायं कृत्वा कृषिकम् अवदत् अयि कृषिक यदि भवा यदि भवन् माम् पञ्जरात् मोचय मोचयेत् तर्हि अमूल्यसत्यत्रयम् त्वाम् श्रावये श्रावयेयम् तेन तव जीवनम् उपकृतं उपकृतम् भविष्यति इति Um, uh, uh, uh, uh, uh, तस् पश्चात् कोकिलः एकम् उपायं कृत्वा वदति uh, hmm. uh, uh, भो ऋषिक यदि भवान् मां पञ्जरात् मोचयति uh, यदात्वं त्वं मह्यं uh, स्वातन्त्र्यं ददाति hmm. अमूल्य अमूल्यसत्यत्रयं त्रय अमूल्य अमूल्यसत्यवाक्यानि श्रावयेयम् अहं त्वम् अमूल्य सत्यत्रय वाक्यं वदामि इति तेन तव जीवनम् उपकृतं भविष्यति उपकृतम् इत्युक्ते सन्तुष्टः वा इत्युक्ते तत्र फलदायि इति अस्तु इति अस्तु <laughs> भगिनि अत्र पश्यन्तु तत्र यदि भवान् मां पञ्जरात् मोचयेत् अत्र किमस्ति विधिलिङ्गलकार तर्हि त्वां श्रावयेयम् तत्र श्रावयामि श्रुधतु तस्य निजन्तरूपविधिलिङ्गरूपेण तत्र श्रावयामि अहं श्रावयामि इत्युक्ते अहं वदामि भवान् श्रुणोतु इति भावः तेन तेन किं तव जीवनं लाभदायी फलदायी भविष्यति निश्चयेन सार्थकं भवति सम्यक् अमूलसत्यत्रयम् अमूल्य अमूल्यसत्यत्रयम् इत्युक्ते मूल्यमूल्य तस्य मूल्यमस्ति मूल्य अतिमूल्य एतादृशं किं वक्तुमिच्छामि परन्तु कः कः तत्र तस्य तस् तस्य तस्मात् कारणात् किं करणीयं पञ्जरात् मोचयेत् यदि hmm. यदा पञ्जरात मोचयेत् तदा एव माम पञ्जरात hmm. मोचयेत् इति सा विनन्तीं करोति अस्तु अस्तु धन्यवादः धन्यवादः अग्रिमे जयन्ती भगिनी पठति वा अस्ति वा जयन्ती भगिनी क्षम्यता भगिनी अस्मि अग्रिमे ओके ओके अस्तु अस्तु अस्तु अन्य अन्य का भगिनी अस्तु आं शृणोमि हा पठतु कृपया हा रमा रमा भगिनी पठतु अनन्तरमहं अमूल्यं पठतु आमां पठामि अमूल्यं सत्यत्रयं वदिष्यामि इति कृषिकः ततः आरभ्य कृषि कृषिकः कुतूहल कृषिकः कुतूहलेन अङ्गीकृत्य कोकिलं पञ्चरात् व्यमुच्यत् तदनु तदनुक्षणं कोकिल कोकिलः वृक्षस्य उपरि उपाविशत् अमूल्यम् सत्यत्रयं वदिष्यामि इति उक्तं खलु त्वया उच्यतां तावत् इदानीम् इदानीम् इति अवदत् कृ कृषिकः किमभवः पृष्टति पृष्टति पञ्चरात् विमोचनं चा करोतु अहं त्रिमूल्यं वदामि इति उक्तवान् उक्तवान् अतः परन्तु हा यदा पञ्जरात् पञ्जरात् विमो विमोचनम् अभवत् यदा कोकिलः मुक्तः तदा सः किं कृतवान् वृक्षस्य उपरि उपाविश वृत्तिषु उपविशत् अत्र व्यमुञ्चत् अत्र अत्र पश्यतु वीणाभगिनी अत्र अत्र वीणाभगिनी शृणोति खलु शृणोमि अत्र वि अमुञ्चत् इति अस्ति अत्रापि यणसन्धेः उदाहरणं वि इति उपसर्ग अमुञ्चत् हा तत् तेन किं भवति वि अमुञ्चत् अमुञ्चत् इत्युक्ते भूतकालरूपं वि उपसर्ग अतः तत्र यणसन्धि भूत्वा व्यमुञ्चत् इति रूपं यथा अत्र अपि अङ्ग्यकरोत् इति कथम् अभवत् अङ्गी अकरोत् तथैव अत्र वि अमुञ्चत् इति वदतु रमा भगिनि अग्रिमे अग्रः कृषिकः पृष्टवान् आ, उक्तवती किल भवती उक्तवती अमूल्य एतत् सत्यत्रयं सत्यत्रयं वदिष्यामिष्यामि इति उक्तं खलु त्वया त्वया किम् उक्तम् अहम् अमूल्यं सत्यत्रयं वदिष्यामि इति अधुना अग्रिमे वदति उच्यतां तावदिदामिम् अधुना वदतु अधुना भवती पञ्जरात् भवान भवान् भवान् इति कोकिलः कोकिलः नर तत्र भवान पञ्जरात् मुक्तः अधुना वदतु इति सः अवदत् कृषिकः अग्रिमे किम् अभवत् पश्यामः तत्र श्यामलाभगिनी पठति खलु कोकिलः प्रत्यवदत् अस्तु पठामि hmm. कोकिलः प्रत्यवदत् प्रथमं वचनं तु पद्यस्य वचनेषु मा विश्वासिः इति त्वदीयं hmm. यदसति तेनैव तृप्तो भव इति तृतीयम् अतिथाम् hmm. हानिं स्मरन् मा चिन्त्य इति तृतीयम् इति एवं विवृत्य कोकिलः आकाशं प्रति उङ्गीय गतवान् hmm. अधुना त्रीणि वचनानि कानि त्रीणि वचनानि कानि प्रथमं वचनं बद्धस्य वचनेषु मा विश्वासि इति विश्वसिः विश्व विश्वसि अपि लोट्लकार मध्यमपुरुष एकवचनम् बद्धस्य वचनेषु अहम् बद्धः आसम् अधुना तादृशी स्थिति मम आसीत् तदा मा विश्वासि इति विश्वासं मा करोतु कोपि बंधने स्थितः तस्य उपरि तस्मिन् विश्वासं मा करो मा करोतो, विश्व लोट्ल मध्यम पुष एक प्रथम वचनम्म द्वित कि भगिनी तवीय यदस्थ्व अतीव महत्वपूर्ण तव हाँ ये एव तृप्तः तृप्तः भव तृप्ति कस्मिन् वर्तते बहूनाम् वस्तूनाम् संचलनं कृत्वा तत्र एकत्रीकरणम् कृत्वा सङ्कलनम् कृत्वा तत्र तृप्ति भवति इतिना तव समीपे यत्किमपि अस्ति तेन एव तृप्तता अनुभवतु त्वदीयम् यत् त्वधीयं, त्वधीयं इत्युक्ते अत्र वट् एवर् बिलोङ्ग्स् टु यु त्वदीयम् यत् किमपि अस्ति तेन एव तृप्ति भवेत तव हा अधुना hmm. भवान् प्रतिदिने कृषिकार्यम् करोति प्रतिदिनम् पक्षिणः गानम् शृणोति तेन तव तृप्तिः भवितुम् अर्हति किमर्थं तत् सदा सर्वदा लगानम शृणोमि मम इच्छानुसारेण यदा अहम् इच्छामि तदा गायनं श्रुणोमि इति भावः न अपेक्षितम् इति भावः न करोतु यत् किमपि तव समीपे अस्ति तेन एव तृप्तताम् अनुभवतु इति अस्ति द्वितीयम् अधुना तृतीया तृतीयं वचनं तृतीयं वचनं किमस्ति अतिताम् हानिम् इत्युक्ते अतिताहानि यत् किमपि घटितम् तत् वारम् वारम् स्मृत्वा तस्य स्मरणम् कृत्वा चिन्ताम् मा करोतु यत्किमपि अभवत् तत् भवतु नाम पुनः पुनः तस्य स्मरणम् भवेत् पुनः पुनः मनसि खेदः न पुना पुना मनसि चिन्ता न अपेक्षिता अतः तत् अतीताम् अतीताम् वाट् एवर् इस् पास्ट् तस्य हानिं तत् मृत्वा चिन्तां मा करोतु इति विवृत्य इत्युक्ते इति विवरणं दत्वा, कोकिलः आकाशम् प्रति उड्डीय गतवान् अत्र स्वातन्त्र स्वतन्त्रतया सा तत्र बन्धनात् सः मुक्तः अतः सः आकाशं प्रति आम् आम् स्वातन्त्र्यस्य मूल्यं बहु किमपि अस्ति अस्तु स्पष्टमस्ति वा अधुना अस्माकम् अद्यदिनस्य पाठः तं प्रति गच्छामः एषः अस्माकं पाठः संशयात्मा विनश्यति संशयात्मा विनश्यति तत्र श्लोकः अस्ति चतुर्थे अध्याये श्लोकः अस्ति किञ्चित् श्लोकस्य विषये वदामि तत्र भगवान् वदति अन्यः अश्रद्धधानः अन्यस्य अश्रद्धधाना धानस्य संशयात्मा विनश्यति ये जनाः अज्ञाः वा अश्रद्धधानाः संशयात्मा विनश्यति इत्युक्ते किम् यस्य ज्ञानं नास्ति अज्ञ इत्युक्ते यस्य ज्ञानं नास्ति अत्र ज्ञानम् इत्युक्ते किम् आत्मविषयकज्ञानम् येषां समीपे आत्मविषयकं ज्ञानं नास्ति अधुना अश्रद्धधान इत्युक्ते श्रद्धा नास्ति श्रद्धा ना तं संशया विनश्य संशय तन संशय संशया संशय तत्फल ना अ संशय कि संशय अश्रद्धा गुरवाक्यु अविश्वास अस् संशयचित संशयोत्पत्तिकारणात् ते न सुखी संशयं तेषां मनसि संशयम् आगच्छति तत् संशयः न कर्तव्यः इति विधानः तत् विनश्यति इत्युक्ते अन्त्य अन्ततो गत्वा तत् नाशः भवति येषां समीपे ज्ञानमपि नास्ति श्रद्धा अपि नास्ति तेषां कृते कास् इति संशयात्मा विनश्यति ते फलं न प्राप्नोति अधुना अग्रिमे तत् भगवता वचनानुसारेण तत्र ते जनाः इह लोके अपि न सुखम् प्राप्नोति परलोके अपि तेषां सुखः सुखम् नास्ति एव नायं लोकोऽस्ति न परो न सुखं संशयात्मनः इति तेषां कृते सुखं न अनुभूयते तत् संशयात्मा विनश्यति इति श्लोकस्य अर्थः अधुना स धर्मवाक्येषु श्रद्धया ये आचरणम् कुर्वन्ति तेषाम् कृते फलप्राप्ति भवति बन्ध बंधा, बन्धात् मोक्षम् भवति परन्तु ये जनाः संशयरूपेण तत्र पश्यति तेषाम् कृते विनाशः एव भवति इति विधानम् अस्तु अधुना अत्र एतस्मिन् अध्याये एतस्मिन् प्रकरणे विषयः कः अत्र पश्यतु सर्वे उपसर्गः इति विषयः अस्ति उपसर्गाः किं नाम उपसर्गः तत्र उपसर्गाः विषये एका पङ्क्तिः अत्र अस्ति उपसर्ग पश्यन्तु तत्र उपसर्गाः विषये पश्यन्तु किं पठतिवा भारत वा पठतिवा पठति वा उपसर्गेण तात्वार्थो बलाद, बलाद नियत्र नियते प्रहार हार संहार विहारपरिहारवत अत्र पश्यन्तु किमस्ति उपसर्गेण उपसर्ग इत्युक्ते सामान्यतया किं वदामः प्रिफिक्स् इति उपसर्गेण धात्वार्थः बलात् अन्यत्र नियते। इत्युक्ते उपसर्गस्य योजना यदा तत्रकृता कृता तदा धातोः अर्थपरिवर्तनं भवति अन्यत्र नीयते इत्युक्ते तत्र परिवर्तनं भवति हा अधुना तत्र हर रुधातोः उदाहरणं द्वितीया पङ्क्ति पश्यन्तु तत्र प्रहार अहार संहार विहार परिहार रुधातु प्रहार प्रहार प्रहरति प्रहरति इत्युक्ते किं प्रहारं करोति षु अटेक् प्रहारं कर्णा करोति इत्युक्ते टु अनन्तरम् आहार आ उपसर्ग यदा त आहरति इत्युक्ते किं खादनं भोजनम् इति आहार आहरति अनन्तरं संहार संहरति संहरति इत्युक्ते तत्र हत्या इति संहार संहार करणीयम् इति विहार इत्युक्ते भ्रमणम् अत्र तत्र विहार भ्रमणम् परिहारम् इत्युक्ते दोषाणां परिहारणम् इत्युक्ते तत्र निवारणं करणीयं निवारणम् इतोपि तत्र अस्ति अपहार अपहार इत्युक्ते अपहरणं करणीयं वस्तुतः रुधा तु सत्यम् मुल, उपहार सत्यं तत् वस्तुतः रुधातु इत्युक्ते हरणम् रुहरणरु हरति इति रूपम् हरणम् इत्युक्ते अपनयम् हा, हा तत् वयं जानीमः रुक्मिणीहरणम् इति सर्वं तत् स्वद्राहरणं हरणं तत करणीयम् तत् अपनयनं करणीयम् परन्तु उपसर्गस्य योजना यदा दृश्यते तदा किं भवति उपसर्गेण धात्वार्थो बलात् अन्यत्र नीयते इत्युक्ते अर्थपरिवर्तनं भवति तत् सामान्य उदाहरणं सर्वे वयं जानीमः गच्छति गमनं, आगच्छति इत्युक्ते आगमनं गच्छति आगच्छति आगमनं पश्यन्तु तत्र अर्थदृष्ट्या सम्पूर्णतया परिवर्तनं दृश्यते अतः धात्वार्थो बलात् अन्यत्र नीयते इति सुप्ति अस्तु बहवः उदाहरणाः तत्र बहवः शब्दाः अस्ति अतः अस्माकं पाठे अपि अस्ति परन्तु यदा चिन्तयामि चेत् पश्यतु चल इति धातु चल इति धातु तच्चलातु विचलति चल् इत्युक्ते परन्तु विचलति विचल विचलनमित्युक्ते नौ योग्यरूपेण तत्र चलनं नास्ति विचलनं भवति तत्र प्रचलति इत्युक्ते रूढीनुसारेण वा तत्र अग्रे चलनम् इति भवति प्रचलति अधुना अस्माकं प्रचलनं प्रचलनं भवान् किं वदति अचलम् अचलनम् अचलनम् इति अत्र अचलनं शिस्तबद्ध तत्र शिस्तबद्धरूपेण तत्र किमपि कार्यं एवं सर्वम् अधुना एकम उदाहरणम् अत्र स्मरामि प्रथमे अध्याये यदा तत् यदा तत्र अर्जुनविषादयोगः भगवद्गीतायां तु बहवः बहूनि उदाहरणानि सन्ति बहवः शब्दाः सन्ति अत्र अहं स्मरामि एकं प्रथमे अध्याये यदा अर्जुनः वदति प्रथमता तु सेनयोरुभयोर्मध्ये रथं स्थापयमेच्छुत् तद्वयोः सेनयोः मध्ये कृष्ण भगवान् तत्र रथस्य स्थापनां करोति तदा अर्जुनः सर्वान् व्यवस्थितान् अस्माकं बन्धून् गुरुन् वा सर्वेषां तत्र अवलोकनं करोति स्म तदा तस्य मनसि विषादः एवं सर्वं वयं जानीमः तत् सीदन्ति मम गात्राणि मुखं च परिशुष्यति इति सः वदति एवं सर्वं हा अनन्तरं गाण्डिवं संस्ते हस्तात् इति वदति अधुना अहं किमपि कर्तुं न शक्नोमि इति सः वदति तदा सः एकवारं वदति निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे तत्र प्रथमे प्रथमे वाक्ये तत्र पश्यामि इति अस्ति द्वितीये वाक्ये अनुपश्यामि न च श्रेयो अनुपश्यामि पश्यन्तु तत्र सः पश्यति साक्षात् पश्यति इत्युक्ते तत्र शरीर शारीरिक इति स्थितिः तत्र सः पश्यति मम पुरतः मम आचार्यः आचार्यद्रोणः मम पितामहः भीष्माचार्य एवं सर्वम् अहं पश्यामि तत् द्रष्टुं शक्नोमि चक्षुषा दर्शनं भवति परन्तु अन्तर्चक्षु अधुना अनुपश्यामि सः वदति न च श्रेयः अनुपश्यामि न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे हा श्रेय दूरदृष्ट्या ज्ञानचक्षुषा अत्र किमपि श्रेयस्करणास्ति सर्वे जानन्ति खलु श्रेयस् प्रेयस् प्रेयस् इत्युक्ते तत्र तात्कालिक सुखं तत्र परिमितं सुखं काल अनुषङ्गाल स्वीकृत्य तावत् एव सुखं परन्तु श्रेयस्कर श्रेयस्कर मार्ग इत्युक्ते तत्र हेपिनेस् इत्युक्ते कल्याण कल्याणप्रदमार्गः मार्ग, टर्म् हेपिनेस् फार् एवर् हेपिनेस् तत् श्रेयस्करः अर्थः सः न च श्रेयोनुपश्यामि अनुपश्यामि न श्रेयः किमर्थं सः वदति अग्रिमे चरणे सः हत्वा स्वजनमाहवे आहवे स्वजनम् आहवे आहवे इत्युक्ते युद्धे अहं स्वजनानां हननं कृत्वा तेषां हत्वा कथम् अहं कल्याणप्रदमार्गं प्रति गच्छामि तत्तु मम अकल्याणम् एव भविष्यति स्वजनाम् हननम् अत्र पश्यन्तु सर्वे जयस्य विषये चिन्ता आसीत् अर्जुनः भीतः वा वदन्तु न सः न भीतः परन्तु एतावत् सः यान् तत्र सर्वेषाम् योद्धाराः ये सन्ति तत्र सर्वेषां दृष्ट्वा सः वदति दृष्ट्वा तु स्वजनम् कृष्ण यत् मम मम जनः स्वजनम् तान् हत्वा कथं अहं सुखम् प्राप्नोमि कथं सुखम् प्राप्स्यते कथं तत् रक्तरञ्जितसिह्वासनम् अहम् अनुभवामि इति तस्य चिन्ता हा अतः एषः मार्गः न श्रेयस्कर न च न च मधति न च श्रेयः अनुपश्यामि न च श्रेयोनुपश्यामि श्रेयस्कर किमपि न अनुपश्यामि पश्यन्तु एकम् एव श्लोकं तत्र स्वीकृत्य एकस्मिन्नेव श्लोके पश्यामि अनुपश्यामि बहवः तत्र शब्दाः वा तत्र श्लोकेषु बहूनि उदाहरणानि सन्ति अस्तु तदस्ति उपसर्गस्य विषये अधुना साक्षात् पाठं प्रति गच्छामः अधुना उपसर्ग इत्युक्ते किं तत् स्पष्टमस्ति वा सर्वेषां स्पष्टमस्ति हा अस्तु धन्यवादः साक्षात् पठनम् अस्तु हा अधुना अम्बिकापथिमहोदय भवान् पठति वा आ, आ, पश, पश्य पश्यन् उच्चैः पश्यत उच्चैः पठत च पश्यत उच्चैः पठत च भीष्मः गच्छति कुन्ती आगच्छति प्रश्नः धावति का कालयवहनः कालयवनः अनुधावति अनुधावति इत्युक्ते तस्य पृष्ठे स्थित्वा सः धावति खलु तत्र रोड्डास् इति अस्ति खलु कालयवनः तत्र कृष्णः धावति कालयवनः अनुधावति अनु, अनु उपसर्गपूर्वक धावति आ उपसर्गपूर्वक गच्छत गच्छति इति अधुना पश्यतु अत्र भीष्मः दृष्ट्वा आगच्छति mm. एकव्यः द्रोणाचार्यं प्रण प्रणमति mm. कृष्णस्य भवताः भक्त्याः mm. न प्रणश्यति अर्जुनस्य मुखं परिशुष्यति क्रोधः अभिजायते आप... पंच, हा अधुना पर्याप्तं पञ्च पञ्चवाक्यं तत्र पश्यन्तु भीष्मम् भीष्मः गङ्गां दृष्ट्वा आगच्छति इत्युक्ते भीष्मस्य आगमनं भवति भीष्ममहोदय तत्र गङ्गां पश्यति अनन्तरं सः तस्य आगमनं भवति आगच्छति गङ्गापुत्रभीष्मः वयं जानीमः एकलव्यः द्रोणाचार्यं प्रणमति तत् नमधातु अस्ति नम प्र इति उपसर्ग प्रणमति प्रणामम् तत्र केवलं नमनमिति न एकलव्यः द्रोणाचार्यं गुरुं मत्वा प्रणामं करोति इति भावः गुरुं मत्वा इत्युक्ते प्रत्यक्षसाक्षात् तस्य गुरु गुरोः अनुग्रहः सः न परन्तु गुरुं मत्वा प्रणामं कृतवान् कृष्णस्य भक्ताः न प्रण प्रणश्यन्ति प्रणश्यन्ति तत्र उपसर्गः कः धातुकः वदति वा अम्बिकापतिमहोदय आम् आम् नश्यति तत्र प्र उपसर्गम् तत्र प्र प्र उपसर्गे तत्र रेफः अस्ति अतः नकारस्य नकार भवति प्रणश्यति प्रणश्यति नश्यति नाशनं प्रणश्यति सर्वथा नाशम् इति सर्वथा तेषां नाश पश्यन्तु कः भावः कृष्णस्य भक्ताः न प्रणश्यति इतुते आपदा वा सङ्कटानां तत्र कठिनसमयः न भविष्यति इति न परन्तु तदा संकटकाले, आपतकाले अपि तेषां साहाय्यकारी श्रीकृष्णः भक्तिमार्गेण ये चलन्ति ते कदापि न प्रणश्यन्ति इति भावः क्षम्यताम् अग्रिमस्य अर्जुनस्य मुखं परिशुष्यति एतदपि प्रथमे अध्याय अस्ति परिशुष्यते परि इत्युक्ते तत्र पूर्णरूपेण शुष्कक्षम्यताम् शुष्कता शुष्कता इत्युक्ते तत्र यदा पिपासा अस्ति तदापि एकनिमिषम् यदा पिपासा अस्ति तदा शुष्कतायाः अनुभवं तु भवति परन्तु अत्र परि पूर्णरूपेण तत्र जलं पित्वा किमपि परिवर्तनं भवेत् इति स्थितिः नास्ति अर्जुनस्य मनसि विषादः प्रथमे अध्याये अतः मुखं परिशुष्यति इति सहवदति तत्र तस्य स्थितिविषय इदानीम् एव वयम् उक्तवन्तः तत् निमित्तानि च पश्यामि एवं सर्वं तत्र तस्य स्थिति कीदृशी एतत् सर्वं तत्र प्रथमे अध्याये दत्तं वर्तते तत् परिशुष्यति मुखं च परिशुष्यति इति स्थितिः हा अग्रिमे अस्ति कामात् क्रोधः अभिजायते तत्र जनधातु एतस्मिन् श्लोके अपि सञ्जायते कामात् क्रोधः अभिजायते एतत् सर्वमस्ति एतत् वयं कृतवन्तः श्लोकः तत् कथम्तत् तत् क्रोधः कामात् क्रोधः ध्यायन्तः विषयान् पुंसः उपजायते तेषु उपजायते उप इति उपसर्ग ह सङ्गात् सञ्जायते काम सम उपसर्गपूर्वक सञ्जायते काम कामात् क्रोधः अभिजायते अभि उपसर्गपूर्वक जनधातु ह इति उदाहरणम् अस्तु एतावत्पर्यन्तं स्पष्टमस्ति सर्वेषाम् स्पष्टमस्ति हा अस्तु अधुना अग्रिमे पठतु वीणा भगिनी पठति आत्मा प्रसादं ततः <coughs> आ भगिनी आत्मा प्रसादम् अधिगच्छति हा अत्र आत्मा प्रसादम् अधिगच्छति प्रसादम् इत्युक्तु इति इत्युक्ते तत्र कृपा इति हा कृपा तत्र आत्मा इत्युक्ते ज्ञानी आत्मा यस्य mm. आत्मज्ञान इतुक्ते इत्युक्ते अहं केवलं शरीरम् mm. इति न शरीरं तु शरीरस्य mm. नाशनं तु भवति परन्तु आत्मा अविनाशी एतादृशी mm. यदा स्थितिः अस्ति चेत् प्रसादं कृपां प्राप्नोति अधिगच्छति इति अधिगच्छति इत्युक्ते कुत्रापि साक्षात् गमनं नास्ति पश्यतु अत्र आगच्छति गच्छति तत्र साक्षात् गमनमस्ति खलु अत्र वयं दृष्टवन्तः कुन्ती आगच्छति अत्र अधिगच्छति इत्युक्ते साक्षात् गमनं फिसिकल् आत्मनः आत्मनः उन्नति इति आत्मनः साधु अधिगच्छति अग्रिमे संशयात्मा विनश्यति सर्वथा विनाशम् इत्युक्ते सर्वथा नाशनं केवलं तत्र सामान्यरीत्या नष्टं नष्टं भवति इति किमर्थं तत अन्नस्य विषये अन्नं नष्टं भवति एवं सर्वं परन्तु अत्र किं विनाश सर्वथा नाश संशयमनसि श्रद्ध यः मनुष्यः तत्र कार्येषु अपि या यान् विधीन् सः आचरति तत्रापि कुत्रापि तस्य श्रद्धा नास्ति तदा विनश्यति एतादृश आत्मा यस्य संशयात्मा इति मनसि संशययुक्त आचरणं यः करोति सः विनश्यति अस्तु भगिनी <coughs> अग्रिमे भगवान् वर्षं निगृह्णाति उत्सृजति च अत्र निगृह्णाति गुन, गृह गृह्णाति इति रूपं तत्र निगृह्ति इत्युक्ते तत्र नि उपसर्ग नियन्त्रणं करोति वर्षमित्युक्ते अत्र वृष्टिः वर्षमित्युक्ते इयर् इति न कालविषयकन तत्र वृष्टिः वृष्टेः नियन्त्रणं करोति निगृह्णाति उत् उत्सृजति उत्सृजति इत्युक्ते पुनः सृजनं करोति निगृह्णाति पुनः सृजनं करोति इति हा तत्र मोटर् सैकल् इति अस्ति भगिनी मोटर् सैकल् तत्र किं भवति अनन्तरं समुद्रस्य जलम् अनन्तरं तत्र सूर्यस्य आतपे तेषां बाष्पीभवनम् इति वाटर् सैकल् खलु जलचक्रस्य केन कृतम् एतत् सर्वं भगवता श्रद्धा इति भगवता एव एतत् सर्वं कृतं वर्षं निगृह्णाति उत्सृजति चतु भगिनि अस्तु अस्तु भगिनि अग्रिमे मनुष्यः कार्याणि कुर्वन् सिद्धिम् अवाप्स्यति अवाप्स्य अव इति उपसर्ग अस्ति हा तत्र मनुष्यः कार्याणि कुर्वन् अवाप्स्यति अत्र कः विचारः तत्र भगवद्गीतायाम् पश्यन्तु भगवद्गीता इत्युक्ते प्रवृत्तिपरमार्गः निवृत्तिपर न किमपि न करोतु इति सर्व तस्य सत्ता सत्ता सत्ताधीनः इति न प्रवृत्तिपर तत्र एकः एकं एक एक स्मरामि अत्र ज्ञानमूलकभक्तिप्रधानप्रवृत्तिप्रदा इति गीता ज्ञानमूलक मूलभूतज्ञानमेव ज्ञानम् इति मूलभूतम् भक्ति भक्तिश्रद्धा हा विश्वास भक्तिप्रधान मुक्ति <laughs> मुक्तिप्रदा भक्तिप्रधान प्रवृत्तिपरमार्गं प्रवृत्तिं कार्यं करोतु किं करणीयम् अद्य किमपि न करोमि अत्र एव तत्र अत्र तत्र समयस्य यापनं करोमि न मनुष्यः कार्याणि कुर्वन् सिद्धिम् अवाप्स्यति सिद्धिम् अवाप्स्यति इत्युक्ते यत्किमपि इच्छति अधुना संसारे तत अहं चिन्तयतु यदा अहं कोऽपि स कापि समस्या अस्ति वा रोगः अस्ति शरीरे तत् रोगात् मुक्तता इच्छामि तत कार्याणि कुर्वन् अपि भवति तत्र एव स्थगनं किमपि न करणीयं तदा सिद्धिं न भवति सिद्धिम् इत्युक्ते अवाप्स्य अग्रिमे अस्तु भगिनि कर्मयोगी विशिष्यते कर्मयोगी अत्र अपि कर्मयोगी कर्मयोगी इत्युक्ते यः कर्म करोति कार्य। परन्तु कार्यं करोति परन्तु कर्म कर्मयोगी इति कथं वयं सर्वे कर्म तु वयं सर्वे कार्यं तु वयं सर्वे कुर्मः परन्तु वयं कर्मयोगी इति न किमर्थं फलेच्छासहितं वयं कार्यं कुर्मः अपेक्षा तु अस्ति फल फलस्य अपेक्षा अपेक्षारहितत्वं मनसि अस्ति वा न सम्पूर्णतया तु नास्ति एवं खलु तत्र सम्पूर्णतया अपेक्षारहितत्वम् अस्माकं मनसि नास्ति वयं सर्वे सामान्याः तत् वयं कार्यं कुर्मः परन्तु वयं कर्मयोगी इति स्थिति कर्मयोगी योगी तत्र का विशेषता विचिन्त्यते विशेषरूपेण सह हा विशेषरूपेण सर्व कर्मयोगी एतस्य विशेषरूपं विशिष्यते इति विशिष्यते अत्र विशिष्य वि इति शिष्यधातु शिष्यधातु तत् वि इति उपसर्व इत्युक्ते तस्य विलगितम् इत्युक्ते सः सामान्यजनेषु न अन्तर्भूतः सम्थिङ्ग् कर्मयोगी mm. सर्वे कार्याणि mm. तु सर्वे कुर्वन्ति परन्तु कर्मयोगी विशिष्यते स्पेशल् विशिष्टं तस्मिन् अस्ति वैशिष्ट्यमस्ति कर्मयोगी इति सामान्य न धन्यवादः तत् औट् आफ् द बाक्स् इति वदामः चेत् वर्गे बहवः छात्राः सन्ति परन्तु कोपि तत् स्पेशलिटि डिफ़्रेण्ट् औट् आफ़् आफ़् अदर् स्टुडेण्ट्स् लैक् विशिष्य अस्तु भगिनि धन्यवादः भगिनि अस्तु अग्रिमे तदा जयन्ती न पठितुं शक्नोति हा भगिनी पठति वा अग्रिमे एकादशतः हा योगी नहा योगी नहा उपसर्ग योगि यज्ञ पर्यपाशित योगि यज्ञ पर्युपाशते अपसर्ग कि चिंती वि प्रऊपसर्गम कि अस् पश्यन्तु वयं आमां किञ्चित् लेखनं कृत्वा दर्शिष्यामि पश्यन्तु किमस्ति अत्र परी उपासते इति अस्ति खलु उपासते अत्र पर इति भवति इकार अस्ति तस्य इकारस्य यकार भवति पर्य अधुना अग्रिमे उपासते तथैव तेन किं भवति य अधिक ऊ यू भवति पर्य पर् अधुना र रेफस्य का विशेषता रेफः उच्चारणसमये वर्णात् प्राक् आगच्छति परन्तु लेखनसमये किं भवति अग्रिमे यः वर्णः तस्य उपरि तिष्ठति पश्यन्तु वर्णात् प्राक् परन्तु उपरि तिष्ठति अग्रिमवर्णस्य उपरि अतः पर्युपासते उच्चारणसमये क्षम्यताम् अत्र न क्षम्यतां क्षम्यताम् उच्चारणसमये रेफात् प्राक् परन्तु लेखनसमये अत्र पर्युपासते पुनः एकवारं लिखामिह उच्चारणसमये लिखति अत्र पश्यति पर् य, उ, यू, यू उच्चारण प्राक, परंतु लेखन उू पर्यु पासतेसते उच्चारणसम यु एक प्रा परुखनसमे पर्यु अच्छति अस् पर्युपाशते परी कि योगिनः यज्ञं पर्युपासते तत्र उपासना अस्ति परि उपासना उपासना योगी योगी विशेषतः तत्र यज्ञम् इति दत्तमस्ति यज्ञम् तत्र होमहवनं केवलं तत्र विधि आधृत्य तत् किमपि कार्यम् अस्ति विधिं स्वीकृत्य कार्यं करणीयम् इति परन्तु अत्र यज्ञं यज्ञम् इत्युक्ते दान यजधातु mm. यजधातु इत्युक्ते तत्र दानमस्ति सङ्गति अस्ति यजनं कर् कार्यमस्ति अनन्तरम् अन्येषां बोधनमस्ति mm. तत्सर्वम् उपासते इत्युक्ते तस्य कृते अस्माकं कृते उपासना इत्युक्ते किं सूत्रस्य पठनं पूजां करणीया पूजा करणीया एवं सर्वम् अस्माकं कृते उपासना तदाहं वयं वदामः वयं वदामः हा अहम् उपासनां करोमि तत् मन्त्रपठनमस्ति पूजा अर्चना अर्चना अस्ति तत्सर्वं वरं कुर्म परन्तु योगिनः कृते अन्येषां कृते सा सा उपासना अन्येषां कृते सः यज्ञं करोति अन्येषां कृते कार्यं करोति अन्येषां कृते याजनं करोति इति भावः अग्रिमे स्वभावः तु प्रवर्तते अत्र अपि अत्र चिन्तयतु उपसर्गः कः प्र इति उपसर्गः प्र, आ, प्र।, प्र। अनन्तरम् अहं तत् आवली अस्ति तत्र आवलीम वयं पश्यामः उपसर्गानां चिन्ता मास्तु परन्तु अधुना तत् केवलम चिंतनं कृत्वा वयं तत तस्य चयनं कर्तुं शक्षामः वा इति विचारः हा प्रवर्तते स्वभावः तु प्रवर्त वर्तनं तु प्र इति प्रकृषेण प्रकर्षेण दृश्यते अस्तु अत्र पश्यतु भगिनी यत् तत कोऽपि तत्र अस्ति सः व्याख्यानं ददाति प्रवचनं करोति एतत् करणीयम् एतत् न करणीयम् इति सिद्धान्तमस्ति शास्त्रवचनेषु एवं दत्तमस्ति परन्तु स्वविषये तस्य स्वभावः तादृशः यदा यत् वदति तादृशः तत्र कृति इति तादृशी कृतिः यदा सः न करोति तदा तस्य मूलतः यः कोऽपि स्वभावः तत्तु बहिर् आगति एव न बहिः तु वयं द्रष्टुं शक्नुमः स्वभावः तु प्रवर्तते एव मूलस्वभावः तत्र तस्य प्रवर्तनं भवति एव अन्येषां कृते मूलस्वभावस्य अवगमनं भवति एव अग्रिमे जगत् विपरि जगत् विपरि वर्तते अत्र पुनः एकवारं प्रवर्तते प्र इति उपसर्ग अधुना विपरि उपसर्गद्वयं परिवर्तते तत्तु वयं जानीमः युगाः संति, अनेश अनन्तरं कालचक्रमस्ति पुनः एकवारं प्रलयः इति अस्माकं श्रद्धा अस्ति तत् सत्यम् अस्ति वा तत् वयं सर्वे तु अधुना अस्माकं तादृशी योग्यता नास्ति सत्यमस्ति वा असत्यमस्ति परन्तु विपरिवर्तते इत्युक्ते कालचक्रस्य विषये तत्र परिवर्तनं तु भवति एव हा तत्सर्वं जगत। किमपि जगत् यत् वयं पश्यामः तत् विना परिवर्तनशीलः नथिङ्ग् इस् कान्स्टेण्ट् नथिङ्ग् इस् टेरि इन् द वर्ल्ड् वि परिवर्तते इति अग्रिमे कार्याणि आत्मवन्तं न निब निबध्नन्ति तत्र बध बधि तत् बधदातु तत् नि इति उपसर्ग कार्याणि आत्मवन्तः न <N> निबध्नन्ति <-nibhad -nanti> इत्युक्ते आत्मवन्तं हा कार्याणि <N -nibhad -nanti> आत्मवन्तं न निबध्नन्ति आत्मवन्त तत् पश्यन्तु तत्र इति uh, मूलशब्दः प्रथमः एकवचन आत्म आत्मवान् आत्मवन्तः आत्मवन्तम् इत्युक्ते तत्र द्वितीया अस्ति बहुवचने सत्यम् आत्मवन्तं सर्वेषां कृते तत् सर्वे आत्मवानेव परन्तु अत्र आत्मवान इत्युक्ते शब्दस्य अर्थः कः अर्थव्यवता कुत्र अस्ति यः यस्य आत्मज्ञानमस्ति सः आत्मवान् hmm? तत् कार्यं सः करोति कार्याणि सः करोति परन्तु बन्धने न बन्धने इत्युक्ते किं फलस्य अपेक्षा अपेक्षारहितत्व अपेक्षारहितं तस्य आचरणमस्ति अतः तस्य कृते बन्धनं नास्ति निबध्नन्ति इत्युक्ते तत् न निबध्नन्ति केवलं तत्र बन्धन बन्धनात् सः मुक्तः हा अग्रिम पञ्चदश पठतु विभस्वान् योगं मनवे प्राह तदस्ति हा तदसि परम्परा तत् गीता गीतायामेव वचनमस्ति परम्परा अस्मि परम्परा विवस्वान् इत्युक्ते विवस्वान् इत्युक्ते कः सूर्यमपि जानति वा सूर्यभव आम् सूर्यभगवान् तत् विवस्वान् योगं मनवे इति तु मनुमहर्षि तत् मनु इति महर्षि ऋषिमनु तत् मनवे इति चतुर्थी विवस्वान् योगं मनवे प्राह प्र आह आह इत्युक्ते वदति ब्रूधातोः रूपमस्ति आह इति तत्र वैकल्पिकरूपम् अस्ति ब्रू धातोः आह इति वदति प्रकर्षेण वदति तत्र योगस्य परम्परा इति गुह्यतमं शास्त्रं यत् शास्त्रं भगवता अर्जुन उक्तः तत् अर्जुनः ज्ञातः तत्र तत् शास्त्रं तस्य परम्परा का अनन्तरं मनु इति अनन्तरमपि तत् सर्वेषां राजा तत्र अहं मन्ये तत्र चतुर्थी अध्यायः अस्ति तत् विवस्वान् अनन्तरं मनु अनन्तरम् इक्ष्वाकुवंशराज इदं सर्वमस्ति परन्तु विवस्वान् प्रथमतः सूर्यभगवान् एतत् शास्त्रं मनुमहर्षिम् उक्तवान् इति mm. अधुना तत्र रह... हा आम् अस्तु धन्यवादः अधन्यवादः श्यामला भगिनी भवती पठति वा अस्ति वा श्या मनुष्यः कार्याणि कुर्वन् सिद्धिम् अवा अवाप् अप अवाप्स्यति न तत्तु अभवत् भगिनि अत्र अत्र आगच्छतु विमूढाः इति आगच्छतु विमूढाः वि, वि, विमूढाः जीवात्मा जीवात्मानं न अनुपश्यन्ति अनुपश्यन्ति अनु उपसर्गपूर्वकदृश्य धातु तथैव पश्यति अनुपश्यति तत्र सम्यक्तया विमूढाः इत्युक्ते ये अज्ञानिजनाः मूर्खाः इति अज्ञानिजनाः विमूढाः नानुपश्यन्ति न अनुपश्यन्ति आत्मानम् तत्र शरीर आत्मा एतस्य विषयकः ज्ञानं तेषां नास्ति ज्ञानं नास्ति तत्र ज्ञानचक्षुषा ज्ञानचक्षुषा ते न पश्यन्ति न अनुपश्यन्ति इति भावः अग्रिमे वदतु पण्डिताः पण्डिताः पण्डिताः साङ्ख्ययोगो पृथक् न प्रवदन्ति ये पण्डिताः ये ज्ञानिनः ये ज्ञानिजनाः ते साङ्ख्यं योगम् तत्र द्वितीये अध्याये साङ्ख्ययोग इति साङ्ख्ययोग तत्र ज्ञानयोग कर्मयोगः पृथक् न प्रवदन्ति तेषां कृते साङ्ख्ययोगः भिन्नः अनन्तरं ज्ञानयोगः कर्मयोगः भिन्नः भक्तियोगः तत् पृथक्तया ते न वदन्ति प्रवदन्ति तेषां भाष्य इत्युक्ते तस्य सामर्थ्यमस्ति तत्र प्रकर्षेण वदति परन्तु पृथक् पृथक् न इच्छति ते तत्र पृथक् विलगीकरणम् इति न एव अस्तु हा अग्रिमे विभुः कस्यचित् पापं न आगते आदत्ते दत्ते इत्युक्ते किम् आदत्ते इत्युक्ते अपोसिट् आफ् गिविङ्ग् किम् अस्ति आत् एक्सेप्टिङ्ग् इति विभुः इत्युक्ते यत् परब्रह्मा परब्रह्मन् इति परब्रह्मा इति परब्रह्मन् यत् अस्ति तत्र ब्रह्मदेव परब्रह्मन् द्वयोः मध्ये भेदः अस्ति हा तत् विभु अस्ति एतत् कस्य अपि पापं न स्वीकरोति यदा अहं पापाचरणं करोमि अनन्तरं वदामि एतत् सर्वं भगवत इच्छयाः एवम् अहं करोमि न कस्यचित् पापं न आदत्ते यु आर् रेस्पान्सिबल् फार् युवर् कर्म तत्र भगवान् आ, सः एव मां तादृशी प्रेरणां ददाति प्रेरणा तथा अहं तथैव आचरणं करोमि न तथा कस्यचित् पापं न स्वीकरोति इति अस्तु अस्तु भगिनि अस्तु अग्रे सरेमः उप अधुना तत्र उपसर्ग सम्यक् रीत्या तत्र दत्त दत्तमस्ति अग्रिमे पृष्ठे तत् पठामः भारतमहोदय आरम्भं करोति वा उच्चैः पठत अस्तु एकनिमिषं तत्र प्राक्दा अत्र अस्माकम् अधुना तत्र गभीर चर्चा गभीर चिन्तनं तत्र किञ्चित् शास्त्रविषयक अध्यात्मविषयक विषयिकी चर्चा तत एतादृशं चिन्तनं वक्तव्यं निद्रामानयति वा न भगिनी न भगिनी कदा कदा <laughs> तद् भविष्यति अतः अतः पृच्छामि अस्तु अस्तु तद् अग्रे सरेम हा अस्तु धन्यवादः पठतु कृपया भारतमहोदय वृष्टैः पठत जानीत च उपसर्गः धातुः क्रियापदम् उपसर्ग सहितम् आ उपसर्गः गम। mm. धातु गम् क्रियापद क्रियापदं गच्छति उपसर्गसहितम् आगच्छति आ उपसर्ग धातु mm. नि निधातु क्रियापदं नीयति उपसर्गसहितम् mm. आनयति नयति इस् टु केरि आनयति इस्टु आनयति उपसर्ग तथा तु स्था क्रियापदं तिष्ठति उपसर्गसहित् उत्तिष्ठति उत्तिष्ठति इत्युक्ते टु गेट् अप् तिष्ठति इत्युक्ते तथैव स्थगनं तस्य स्था उपसर्ग अनु, श्रु अनु hmm. Hmm. शुरु धातु सृ क्रियापदं सरति उपसर्गसहित् अनुसरति सरति इत्युक्ते सृधातु सृगतौ इत्युक्ते गतौ गच्छति परन्तु अनुसरति इत्युक्ते किम् अनुकरणं तत्र तु फालो अनु उपसर्ग उपसर्गः वद क्रियापदं वदति उपसर्गसहितम् अनुवदति अनुवदति स्टु फालो तत्र hmm. शिक्षकः वर्गे श्लोकं वदति छात्राः आफ्टर् द टीचर् अनुवदन्ति उपसर्ग अनु धातु धा दा क्रियापदं धावति Hmm. उपसर्गसहित ah. ah. अनु उपसर्ग क्रियापदं उपसर्ग विपसर्गसहितम् अत्र विलिखति विशेषेण इत्युक्ते सामान्यरीत्या लेखनमिति न प्रकर्षेण तत्र कदा अहं वदामि तत्र शिलालेखः इति अस्ति खलु शिलालेखः तत्र विशेषप्रकारेण तत् लेखनं भवति तत्र इत्युक्ते तत्र कथं तत् राजपरिवार सम्बन्ध वा तत्र दानपत्रम् इति तेषां लेखनं तत् विलेखनम् इति भवति विलिखति इति hmm? उपसर्गविः hmm? hmm? क्रियापदं हरति hmm? उपसर्गसहितं विहरति hmm? विहारणं विहारम् इत्युक्ते भ्रमणं तत्र उपसर्गवितुः स्मृ क्रियापदं स्मरति उप्सर्गसहितं विस्मरति अत्र पश्यतु तत्र पूर्णतया विपरीत उपसर्गेण नात्वार्थौ बलात् अन्यत्र नीयते तत्र पूर्णतया विपरीतं स्मरति विस्मरति किमपि स्मर्तुं न शक्नोति इति <laughs> उपसर्गणि तु क्षिप क्रियापदं क्षिपति निक्षिपति निक्षिपति निक्षेपणम् इति क्षिप् क्षिपति क्षिपक्षिप् इत्युक्ते थो थो तत् क्षेपणास्त्रम् इति वयं जानीमः खलु तत्र मिसैल्स् इति तत् क्षेपणमस्ति तत्र परन्तु निक्षिपति इत्युक्ते तत्र सर्व परिस्थितेः अवलोकनं कृत्वा क्षेपणं तत् निक्षिपति इति ओके okay. उपसर्गप्रह तातु रः रुः क्रियापदं हरति उपसर्गसहितं प्रहरति Hmm. प्रहरति इत्युक्ते टु तु अटेक्ट् इति hmm. प्रहारं उपसर्गप्रातुः क्षाल क्रियापदं क्षालयति उपसर्गसहितं प्रक्षालयति तत्र प्रक्षालनं करणीयम् इत्युक्ते विशेषप्रकारेण स्वच्छीकरणम् यदा कोपि उत्सवः वा तत्र धार्मिककार्यं यदा अस्ति चेत् विशेषतया स्वच्छीकरणं भवति खलु गृहस्य अपि तत्र परिसरस्य अपि तत् प्रक्षालनम् इति परि उपसर्गः धातु पाल क्रियापदं पालयति उपसर्गसहितं आ, उपसर्ग उपसर्ग, उपसर्ग, उपसर्ग मा, सत्यम, सत्यम। प, न उपसर्ग महोदय सत्यं सत्यं तत्र प पूर्णरूपेण तत्र अकार उपसर्ग अपि सत्यं सत्यम् सत्यम। उपसर्ग पर्याप्तं पर्याप्तं हा धन्यवादः महोदय अत्र अत्र अपि पश्यतु परिपालनं परिपालनं ममता तत्र पैपालने किम किमस्ति तत्र ममता अस्ति वा तत्र दायित्वमस्ति पैपालनं करणीयं पालयति इत्युक्ते पालयति तत्र सामान्यतया पालनमस्ति अस्तु अग्रिमे अम्बिकापतिमहोदय भवान् कृपया पठति वा अग्रिमे ग्रच्छ दातुः हा प्रच्छ् प्रच्छ, प्रच्छ, प्रच्छ दातुः पृच्छति क्रियापदम् उपसर्गसहितं परि पृच्छति हा परिपृच्छति अत्र पश्यतु छात्रः प्रश्नं पृच्छति तत् केवलं शङ्कासमाधानार्थं कदा कदा तदपि वर्गेषु भवति किं तत् केवलं तत्र किमपि ध्यान विचलितं करणीयम् अतः पृच्छति प्रश्नान् परन्तु परिपृच्छति इत्युक्ते सम्यक् अभ्यासं कृत्वा वा सम्यक् विचारेण सः प्रश्नान् पृच्छति तदा परिपृच्छति विषयगर्भता तत्र अस्ति परिपृच्छति अग्रिमे उपसर्गः अव धातुः गम् धातुः क्रियापदं गच्छति उपसर्गस्थितम् अवगच्छति अवगच्छति अत्र अस्ति अवगमनं गम तत्र पश्यन्तु गमधातोः विषये अपि तत्र अव आगच्छति चेत् अवगमनम् अण्डर्स्टेण्डिङ्ग् इति भवति तत्र अवगमनम् अवगच्छति इति अवगतम् इत्युक्ते अण्डर्स्टूड् एतत् अवगतं शिक्षकः पृच्छति इत्युक्ते हाव् यु अण्डर्स्टूड् तत् अवगतम् इति पुनः अव पुनः उपसर्गः अव दातुः न दातुः क्रियापदं नमति उपसर्गसहितम् अवनमति अवनमति तथैवस्ति अवनमनम् अधि उपसर्गः वस् धातुः वसति क्रियापदम् अधिवसति धातु उपसर्गसहित hmm. अधिवसति उपसर्गः उपसर्ग उप आ, क्रियापदं धातु कृ क्र, क्रियापदं करोति उपसर्गसहितम् उपकरोति उपकरोति उपसर्ग सं क्रिया धातु गृह क्रियापदं गृह्णाति गृह्णाति उपसर्गसहितं सङ्गृह्णाति सङ्गृह्णाति अत्र ग्रहणं केवलं ग्रहणमस्ति गृह्णाति सङ्ग्रहणम् इत्युक्ते तत्र एकत्रीकरणं ग्रहणम् एवं सर्वं सङ्गृह्णाति न केवलं तत्र ग्रहणम् इति सम् उपसर्गः हृदातुः हरति क्रियापदम् उपसर्गसहितं संहरति संवार्ति तत्र संहारः अन्तर्भूतम् निस् उपसर्गः सृ धातुः सरति क्रियापदम् उपसर्गसहितं निस्सरति अत्र काश्चिति सरति इष्टु बो कत्यार्थे निस्सरति इष्टु स्लिप्डौन् इति निस्सरति निसरणम् इति परा उपसर्गः बु धातुः भवति क्रियापदम् उपसर्गसहितम् परा भवति mm. उपसर्ग उप, उप, अप, अप, अप mm. दातु दातु करोति उप, क्रियापदम् उपसर्गसहितम् अप, mm. अपकरोति अपकरोति परा भवति तत्तु वयं जानीमः करोति तत्र जयं न पराभवमिति अपकरोति उपकरोति उपकारम् उपकरोति अपकारमित्युक्ते गिविङ्ग् हार्म् टु अदर्स् उपकारम् इत्युक्ते गिविङ्ग् फेवर् और् उपकार इत्युक्ते गिविङ्ग् हेल्प् आफरिङ्ग् हेल्प् परन्तु अपकरोति इत्युक्ते काजिङ्ग् हार्म् इति अपकरोति अधुना अग्रिमे अभि उपसर्ग उपसर्गः ज्ञा दातु ज्ञानातिक्रियापदम् उपसर्गसहितम् अभिज्ञानाति अत्र पश्यन्तु अभिजानाति तत्र कालिदासस्य रचना अस्ति खलु अभिज्ञानं शाकुन्तलम् सर्वे जानन्ति खलु अभिज्ञानशाकुन्तलमिति जानन्ति वा हा भगिनि जानन्ति अभिज्ञान अभिज्ञान इत्युक्ते तत्र कथा कथा का पश्यतु दुश् दुष्यन्तमहाराज सः सर्वं विस्मृतवान् आसीत् तत् अङ्गुलिकायाः विषये तस्य स्मरणम् एव न आसीत् परन्तु अनन्तरं गच्छता कालेन मनसि तत् अंगुलिका सः पश्यति तत् अङ्गुलिकां दृष्ट्वा मनसि सर्वेषां यत्किमपि अभवत् घटनायाः विषये अवगमनं पुनः एकवारं तत् अभिज्ञानम् तत् अभिज्ञानम् अभिज्ञानाति इति पुनः तस्य स्मारणं परन्तु कीदृश अनन्तरं सः एव उक्तवान् खलु मम दोषः अहं पापाचरणं कृतवान् अहं तत् अन्यायकारकम वर्तनम् एतत् सर्वम् अभिज्ञानम् इति अस्तु धन्यवादः अम्बिकापतिमहोदय अधुना अन्तिमः अपि पठामः अनन्तरं स्थगयामः हा वीणा भगिनी भवती पठति वा हा भगिनी उपसर्गः अस्ति अनु धातुः अस्ति शुच् अस्ति शोचति उपसर्ग सहितम् अनुशोचति हा तत्र प्रथमे तत्र विभागे आसी तत आसीत् नानुशोचन्ति पण्डिताः इति अनुशोचन्ति इतः अत्र पश्यतु शोकः तु मानवीभावना शोकः तु भवति एव हा प्रियजनानां योगः भवति वा तत्र सम्पत्तिविषयकः चिन्ता तदा शोकः तु भवति एव सर्वेषां जीवने शोकः अस्ति परन्तु ये बुधि बुधजनाः इत्युक्ते ज्ञानीजनाः ते न अनुसोचन्ति अनुसोचन्ति अनु इत्युक्ते पुनः पुनः तस्य स्मारणं कर, कृत्वा तत्र शोकमग्न अवस्था पुनः पुनः एतत् ओहो मम तत्र कुत्र, कुत्र कथम् एतत् अभवत् तत् अधुना अहं किं करोमि अधुना मम प्रयत्नाः सर्वे विफलाः तत् पुनः पुनः तस्य शोकमग्न अवस्था इति पण्डितानां कृते न सम्भवति अतः hmm. न अनुचन्ति पण्डिता इति भगवान् वदति hmm, अस्तु भगिनी hmm. hmm. अग्रिमे उपसर्गः अस्ति प्र धातुः हा क्रियापदमस्ति जहति उपसर्गसहितं hmm. प्रजहति hmm. प्रजहति तत्र यज्ञकारण जहाति इति यज्ञदानविषयक तत्र प्रजहति तत्र अत्रापि अत्र अत्रापि भावकाः कः भावः जहाति इति सामान्यतया परन्तु प्रजहति प्रजाहाति प्रजा इत्युक्ते तेषां मनसि पुनः एकवारं तत्र फल फलकाङ्क्षा इति कामनाकाङ्क्षा द्वयोः आब अभावः वर्तते इति परन्तु यज्ञ यथा अहम् उक्तवती यज्ञ यद्या... यज्ञम् इत्युक्ते तत्र केवलं तत्र पण्डितानाम् आवाहनम् अनन्तरं मन्त्रोच्चारणम् अनन्तरं पूजा इति न तत् सीमितः अर्थः अत्र यज्ञम् इत्युक्ते दानम् अत्र यज्ञयजधातोः अर्थः अर्थभविनी तत्र देवपूजासङ्गतिकरणदानेषु एवं सर्वमस्ति इति नित्यनियम नित्यनैमित्तिककार्यं का यत् वयं कुर्मः तदपि अपेक्षा न यदा तत्त्वमपि वर्तते तदापि यज्ञमेव गृहिणी माता तत्र भोजनं करोति सा तत्र अहमेव खादामि सर्वं मां मम प्रशंसां कुर्वन्तु तदा एव अहं भोजनं करोमि इति अपेक्षया सा न करोति अस्माकं माता सर्वेषां कृते तत् तत्र कोऽपि कापि अपेक्षा अस्ति वा न हा तस्मिन् समये वयं न जानीमः अपि तस्याः प्रयत्नान् विषये वयं सर्वे अनिभिज्ञाः परन्तु तत् यज्ञ इति अपेक्षा रहित अस्तु भगिनि अपेक्षारहितत्वं अस्तु भगिनि अग्रिमे उपसर्गः अस्ति प्र धातु अस्ति द्रू क्रियापदम् अस्ति आह उपसर्गसहितम् अस्ति प्राह प्रकर्षेण वदति इति प्राह अस्तु भगिनि अग्रिमे उपसर्गः अस्ति उत् धातुः अस्ति स्रुवा सृ सृ सृ सृ इति अस्ति सृ क्रियापदमस्ति सृज् सृजति आम् उत्सृजति उपसर्गसहितमस्ति उत्सृजति तत्रापि सृजनम् उत्सृजनं पुनः पुनः तस्य निर्मिति इति निर्मिति करणीया उत्सृजति इति उपसर्गः अस्ति अव धातुः अस्ति लोक क्रियापदमस्ति लोकते उपसर्गसहितमस्ति अवलोकते लोकते इस् जस्ट् सी अवलोकते सूक्ष्मतया पश्यति लोकते अस्तु भगिनि उपसर्गः अस्ति नि धातुः अस्ति युज् क्रियापदम् अस्ति युङ्क्ते नियुपसर्गः अस्ति नियुक् नियुक् नियुङ्क्ते नियुक्ति नियुक्तै इति इत्युक्ते तत्र नियुक्ते भगिनि अग्रिमे उपसर्गः अस्ति अधि धातुः अस्ति येन क्रियापदं नास्ति अधीते इन धा हाँ इन हां, यदा यदा इण गौ यहाँ हो योजना क्यु वा तत्र त्लोकुवती तणधातु उपसर्गसहित आगछति इण धा योजना उपसर्ग रहितत्वं तत्त्व नास्ति उपसर्गेण सह एव अधि उपसर्गपूर्वक इण तत् अधीते अधीते इत्युक्ते अध्ययनं करोति ओम् अधीते तु अध्ययनम् अस्तु अग्रिमे उपसर्ग अस्ति अनु धातुः अस्ति वृत् क्रियापदम् अस्ति वर्तते उपसर्गसहितम् अस्ति अनुवर्तते टु फालो अगेन् वर्तनं फालो अनुवर्तनम् इति उपसर्गः अस्ति उप धातुः अस्ति जनी क्रियापदम् अस्ति जायते उपसर्गसहितम् अस्ति उपजायते एतत्तु श्लोके विषयान् पुंस सङ्गस्तेषुजायते इति भाव उत्पादनं अस्तु भगिनी अग्रिमे उपसर्गः अस्ति वि धातुः अस्ति ईक्ष क्रियापदमस्ति ईक्षते उपसर्गसहितमस्ति वीक्षते तत्र विशेषतया अवलोकनम् विशेषतः विशेषतया परिपा अस्तु भगिनि वीक्षते वीक्षते अस्तु भगिनि उपसर्गः अस्ति प्र धातुः अस्ति भाष क्रियापदम् अस्ति भाषते उपसर्गसहितम् अस्ति प्रभाषते इत्युक्ते तत्र भाषणं वक्तव्यं तत् सामान्यतया वदति इति परन्तु यः कोऽपि शास्त्रवचना अधृत्य किमपि वदति तद् तर्कशुद्धता तस्मिन् वर्तते वा शास्त्रशुद्धता वा गुरुवचनमिति वदामः चेत् तद्भवती प्रभाषते प्रकर्षेण भाषते कृष्णस्य कृष्णः गीतः प्रभाषते आम् आम् वा आमां सत्यं गीतं प्रभाषते गीतां प्रभाषते गीतां प्रभाषते अस्तु भगिनी अन्ते अस्ति उपसर्गः अनु धातुः अस्ति सज्ज क्रियापदम् अस्ति सज्जते उपसर्गसहितम् अस्ति अनुसज्जते अनुषज्जते इष्टु बिकम् रेडि सज्जा इति ओकेज्जाकम् सज्ज रेडि अस्तु उत्तममस्ति धन्यवादः भगिनी धन्यवादः भगिनी अतिथः अत्र एव वयं स्थगयामः अग्रिमे वयं कुर्मः तत् अद्य कथायाः पठनं तत् गतसप्ताहे पूर्णतया न अभवत् अतः मया न स्वीकृता कथा अद्य दिने परन्तु अग्रिमे वर्गे तत् पठिष्यामः तत्र संशयात्मा विनश्यति इति श्लोकं स्वीकृत्य अपि तत्र कथायाः पठनं भवति अनन्तरम् उपसर्गस्य अध्ययनमपि कुर्मः सर्वे मिलित्वा अस्तु अस्तु भगिनी धन्यवादः अम्बिकापति महोदय शान्तिमन्त्रम् वदति वा ओम् पूर्णमद पूर्णमिदम् पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेव विशिष्यते ओम् शान्तिशान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवाद सर्वेषां धन्यवादाः धन्यवादः धन्यवादः धन्यवादः भगिनी धन्यवादः